अथैकादशोऽध्याय भगवान् श्रीरामकीशेश्लीलां कावर्णन् श्रीशो उवाच भगवानात्मनात्मानं रामोत्तं कल्पकै सर्वदेवमयं देवं ईज आचार्यवाण्मखै ओत्रे ददाद्य सम्प्राचिं ब्रह्मणे दक्षिणां प्रभु अध्वर्यवे प्रतीचिं वा उदेचीं सामगायस आचार्याय ददौ शेषां यावति भुस्तदन्तरा मन्यमाना इदं कृष्णं ब्राह्मणोर्हति निस्पृह इत्ययं तदलङ्कारवासोऽभ्यामवशेषितः तथा राज्ञपि वैदेहि सौमङ्गल्यावशेषिता ते तं ब्रह्मण्यदेवस्य वात्सल्यं वीक्ष्य प्रीतक्लिन्नधियस्तस्मै प्रत्यर्प्येदम्बभाशिरे अप्रतं नस्तया किं नो भगवन् भुवनेश्वर यन्नोऽन्तर्हृदयं विश्य तमोहंसि सरोचिषा नमो ब्रह्मण्यदेवाय रामया कुण्ठमेधसे उत्तमश्लोकधुर्याय न्यस्तदण्डार्पिताङ्घ्रिये कदाचिल्लोकजिज्ञासुर्गूढो रात्र्यावलक्षितः चरन्वाचो शृणो द्रामो भार्यामुद्यस्य कस्यचिन् नाहं विभर्मित्वां दुष्टां अशुतिं परवे स्मगां श्रीलोभे विभ्रयासीतां रामो नाहं भजे पुनः इति लोकाद्बुमुखाद्दुराराध्यादसंविदः प्रत्याभीतेन स्यात् त्यक्ता पां प्राप्ता प्राचीतसाश्रमम् अन्तर्वल्यागते काले यमंशा शिशुवेशुतौ कुसूलौ इति ख्यातौ तयोश्चे क्रिया मुनिः अङ्गतश्चित्रकेतुश्च लक्ष्मणस्यात्मजौ भरतस्य महीपते सुबाहूसुरसेनश्च शत्रुघ्नश्च बभूवतुः गन्धर्वान् कोटिसो जग्ने भरतो विजये दिशां तदीयं धनमानीय सर्वं राज्ञे न वेदयत् शत्रुघ्नश्च मधोपुत्रं लवणं नाम राक्षसं। अत्वा मधुवने चक्रे मथुरां नाम वैपुरीम् मनो निक्षिप्य तनयौ सीता भर्त्या विभासिता ध्यायन्ती रामचरणो विवरं प्रवेशः तच्छ्रुत्वा भगवान् रामो रुन्धन्नपि धियाशु च स्मरस्तस्या गुणास्तास्तान्नाशक्नोदरोदधूमेश्वरः स्त्री पुं प्रसङ्गादिक् सर्वत्र त्वासमावह अपि किमुत ग्राम्यस्य गृहीचेतसः तत ऊर्ध्वं ब्रह्मचर्यं धार्यन्नुहोत्प्रभो त्रयोदशाब्दसाहस्रम् अग्निहोत्रम् अखण्डितं स्मरतां हृदिविण्यस्य विद्धं दण्डकण्टकैः स्वपादपल्लवं राम आत्मज्योतिरगात्ततः नेदं यशो रघुपते सुर्याञ्चयात् लीलातनोरधिकसाम्यविमुक्तधाम्न रक्षो वधो जलधिबन्धनमस्त्रपुङ्गैः किं तस्य शत्रुघननेकपयशहायाः यस्यामलं मृषसदस्सु यशोऽधुनापि जायन्त्यग्रमृषयो दिगिभेन्द्रपट्टम् तं नाकपालवशुपालकिरीटजुष्टपादाम्बुजं रघुपतिं शरणं प्रपद्ये स यै स्फुटोऽभिदिष्टो वा संविष्टोऽनुगतोऽपि वा कोसलास्ति यसुस्थानं यत्र गच्छन्ति योगिनः पुरुषो रामचरितं श्रवणैरुपधारयन् आनुशंसस्य परो राजन् कर्मबन्धैर्विमुच्यते राजुवाच कथं स भगवान् रामो भ्रातृन्वा स्वयमात्मनः तस्मिन् वा तेन्वर्तन्त प्रजापौरासे ईश्वरे श्रीसुगुवाच तथादिसद्दिग्विजये भ्रातृस्त्रिभुवनेश्वरः आत्मानं दर्शयन् स्वाणां पुरीमैक्षितसानुगः आसिक्तमार्गां गन्धोदयैकरिणां मदशीकरैः स्वामिनं प्राप्तमालोक्य मत्तां वा सुतरामिव प्रासादगोपुरसभा चैत्यदेवगृहादिषु विन्यस्त हेमकलशैपताकाभिश्च मण्डिताम् पुगैः संवृत्तैरम्भाभिः सुवाससां। सुवाससाम् आदर्शैरंसुकैस्रग्भिः कृतकौतुकतोरणं त्वमुपेयुस्तत्र तत्र पौरा अर्हण पाडयः आशिषो युजुर्देव पाहि मां प्रकृतयो धृतिधृदं दितां ततः प्रजाभिक्षपतिं चिरागतं दिदीक्षयो श्रेष्ठ गृहास्त्रियो नराह आरुह्य हन्याण्यरविन्दलोचनम् अतृप्तनेत्राकुसुमैरवाकिरन् अथ प्रविष्टगृहं ज्युष्टं श्वेपर्वराजभि अनन्ताखिलकोशाढ्यमनर्घ्योरुपरीक्षितं विद्रुमो दुम्बरद्वारैवेदुर्यस्तम्भपङ्क्तिभिः फलैर्वां नारकतैः स्वक्षैर्घातस्फटिकभित्तिभिः चित्रस्रग्भिः पट्टिकाभिर्वासों मणिगणांशुकैर्ताफलैश्चिदुल्लासैकान्तकामोपपत्तिभिः धूपदीपैः सुरभिर्भिर्मण्डितं पुष्पमण्डलैः दीपुम्भिः सुरसङ्कासैर्जुष्टं भूषणभूषणैः तस्मिन् स भगवान् रामस्निग्धया प्रियजेष्टया ध्रेमे सारामधीराणां वृषभसीतया किल भुभजे च यथा कालं कामान् धर्ममपीडयन् वर्षपूगान् बहुनृणाम् अभिध्याताङ्गपल्लवः श्री श्रीमद्भागवती महापुराणे प्रमुञ्चां सीतायां नव स्कन्धे श्रीरामोपाख्यानेकादशोऽध्याय